श्रेयस श्रेयप्राप्तिमन्त्रम् खनम् फोर्परिटि दिस् मन्त्र अण्ड् खनम् आर् फोर् प्रोस्परिटि आण्ड् केन् बि चाण्ड् आन् एनि डे एनि टैम् वाक्यं असि स्तनयत्नो सनिरसि वृष्टिशनिरस्यग्नेर्यान्यसि देवानामग्नेयान्यसि वायोर्यान्यसि देवानां वायोन्यस्यन्तरिक्षस्य यान्यसि देवानामन्तरिक्ष्यस्यन्तरिक्षमस्यन्तरिक्षा यत्त्वा सलिलायत्वा सर्णीकायत्वा सतीकायत्वा केदायत्वा प्रचेतसेत्त्वा विवस्वदेत्वा देवस्त्वा ज्योतिष आदित्येभ्यस्त्वर्चे त्वा रुचेत्वा द्युदेत्वा भाषे त्वा ज्योतिषे त्वा यशोदान्त्वा दान्त्वा यशसि तेजोदान्त्वा तेजसि पयो वर्चोदान्त्वा वर्चसि द्रविणो दान्त्वा द्रविणे साधयामि तेनर्षिणा तेन ब्रह्मणा तया घन अस्य स्थानयत्नो शनि स्थानयत्नो शनिरस्य स्थानयत्नो शनिरस्य स्थानयत्नो शनिरस्य स्थानयत्नो शनिरसि स्थानयत्नो शनिरस्य स्थानयत्नो शनि स्थानयत्नो शनिरस्य वृष्टि शनिर् वृष्टि शनिरास्ये स्थान यत्नो शनि स्थानयत्नो शनिरास्य वृष्टि शनिः स्थानयत्नो शनि हृदे स्थानयत्नो शनिः असि वृष्टि शनिर्वृष्टि शनिरास्यसि वृष्टि शनिरस्यसि वृष्टि शनिरस्यसि वृष्टि शनिरासि वृष्टिशनिरस्यसि वृष्टिशनिर्वृष्टि शनिरस्य अग्नेरग्नेरसि वृष्टिशनिर्वृष्टिशनिरस्यग्ने वृष्टिशनिरिति वृष्टि शनिः अस्यग्नेरग्नेरस्य अग्निर्यानि यान्यग्ने रस्य अग्निर्यानि अग्निर्यानि यान्यग्निरग्निर्यान्यस्यसि यान्यग्निरग्निर्यान्यसि यान्यस्यसि यानि यस्यसि देवानान् देवानामसि यानि यान्यसि देवानाम् असि देवानान् देवानामस्यसि देवानामग्ने यानि अग्ने यानि देवानामस्य सि देवानामग्ने यानि देवानामग्ने यानि अग्ने यानि देवानान् देवानामग्ने यस्यग्ने यानि देवानान् देवानामग्ने यान्यसि अग्ने यान्यस्यग्ने यान्यसि वायोर्वायोरस्यग्ने यान्यग्ने यान्यसि वायोः अग्ने यानेत्यग्ने यानि असि वायोर्वायोरस्य शिवायोर्यानि यानि वायोरस्य शिवायोर्यानि वायोर्यानि यानि वायोर्वायोर्यान्य्यस्यसि यान्यसि देवानाम् असि देवानां देवानामस्यसि देवानां वायो यानि वायोयानि देवानामस्यसि देवानां वायोनि देवानां वायोनि वायोनि देवानां देवानां वायोयान्यस्यसि वायोनि देवाना देवानां वायोन्यसि वायोयान्यस्यसि वायोनि वायोयान्यस्य अन्तरिक्षस्य अन्तरिक्षस्यासि वायो यानि वायोयान्यस्य अन्तरिक्षस्य वायो यानीति वायो यानि अस्यन्तरिक्षस्यन्तरिक्षस्यास्यन्तरिक्षस्य यानि यान्यन्तरिक्षस्य अस्य अन्तरिक्षस्य यानि अन्तरिक्षस्य यानि यान्यन्तरिक्षस्य अन्तरिक्षस्य यान्यस्यसि यान्यन्तरिक्षस्य अन्तरिक्षस्य यान्यसि यान्यस्यसि यानि यान्यसि देवानां देवानामसि यानि यान्यसि देवानाम् असि देवानां देवानामस्यसि देवानामन्तरिक्षयान्यन्धरिक्षयानि देवानामस्यसि देवानामन्तरिक्षयानि देवानामन्तरिक्षयान्यन्तरिक्षयानि देवानां देवानामन्तरिक्षयान्यस्य अन्तरिक्ष यानि देवानां देवानामन्तरिक्षयान्यसि अन्तरिक्षयान्यस्य अन्तरिक्षमस्यन्तरिक्षयान्यन्तरिक्षयान्यस्यन्तरिक्षम् अन्तरिक्षयानीत्यन्तरिक्षयानि अस्य अन्तरिक्षमन्तरिक्षमस्य अन्तरिक्षमस्य अन्तरिक्षमस्य अन्तरिक्षमस्य अन्तरिक्षमन्तरिक्षमस्यन्तरिक्षा यान्तरिक्षा यास्यन्तरिक्षमन्तरिक्षमस्यन्तरिक्षा या अस्य अन्तरिक्षा यान्तरिक्षा यास्य अन्तरिक्षा यत्त्वा त्वान्तरिक्षा अन्तरिक्षायत्वारिक्षायान्तरिक्षायत्वा सलिलाय सलिलायत्वारिक्षायारिक्षायत्वा सलिलाय त्वा सलिलायसलिलायत्वासलिलायत्वा सलिलायत्वा सलिलायत्वा सलिलायत्वा सलिलाय सलिलायत्वा सर्णिकाय सर्णिकायत्वा सलिलाय सलिलायत्वा सर्णिकाय त्वा सर्णिकाय सर्णिकायत्वा सर्णिकायत्वा सर्णिकायत्वा सर्णिकायत्वा सर्णेकायसर्णिकायत्वा सदेकायसदेकायत्वा सर्णेकायसर्णिकायत्वा सतीकाय त्वा सदेकाय सदेकाय त्वा सदेकाय त्वा सदिकायत्वा सदिकायत्वा सदिकायत्वा सदिकाय सदिकायत्वा केदाय केदायत्वा सदिकाय सदिकायत्वा केदाय सदि का यदि सतिकाय त्वा केदाय केदायित्वा केदायित्वात्त्वा केदायत्वात् त्वा केदायित्वा केदायत्वा केदाय प्रचेतस्य त्वा केदाय प्रचेतस्य त्वा प्रचेतसे प्रचेतसे त्वा त्वा त्वा त्वा त्वा त्वा प्रचेतसे चे प्रचेतसे त्वा विवस्वदे प्रचेतसहि दि प्र चेतसे त्वा विवस्वदे वि वस्वदे त्वा त्वा विवस्वते त्वा विवस्वते त्वा त्वा विवस्वते विवस्वदे वि दिवो दिवस् त्वा विवस्वदे विवस्वदे त्वा त्वा दिवस्त्वा त्वा दिवस्त्वा त्वा दिवस्त्वा दिवस्त्वा त्वा दिवो दिवस्त्वा ज्योतिषे दिवो दिवस्त्वा ज्योतिषे त्वाज्योतिषे ज्योतिषे त्वा ज्योतिष आदित्येभ्य आदित्येभ्यो ज्योतिषे त्वा ज्योतिष आदित्येभ्यः ज्योतिष आदित्येभ्य आदित्येभ्यो ज्योतिषे ज्योतिष आदित्येभ्य स्वादित्येभ्यो ज्योतिषे ज्योतिष आदित्येभ्यस्त्वा आदित्येभ्य त्वर्च अरुचय त्वा त्वर चत्वा त्वरच त्वा त्वरचत्वा ऋचयत्वा त्वर च ऋचय त्वा रुचे त्व रोचे रोच त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा twa dieu de dieu de twa twa dieu de twa twa dieu de twa twa dieu de twa dieu de twa dieu de twa basse basse twa dieu de dieu de twa basse त्वा भासे भासे त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वाज्योदेशे ज्योदेशे त्वाज्योदिषे त्वा ज्योदिषे त्वा त्वाज्योदिषे त्वा ज्योदिषे त्वा ज्योतिषे ज्योतिषे त्वा यस्य दा यस्य धान् द्वाज्योदेशे ज्योतिषे त्वा यस्य धाम् त्वा यश दाय्य स दान्त्वा यश दान्त्वा यश दान्त्वा यशसि यशसि त्वा यशो दायशो धान्त्वा यशसि यशो दामिधि यशः दां त्वा यशसि यशसि त्वा यशसि ते जो दां दे जो यशसि ते जो दान्ते ज्यो दायशसि यशसि तेजो दान्त्वा त्वा ते जो दायशसि त्वा तेजसि तेजोदामिदि तेजः दां त्वा तेजसि तेजसि त्वा तेजसि पयो तेजसि त्वा तेजसि पयो दां पयो दान्तेजसि तेजसि पयो दान्त्वा त्वा तेजसि पयो दान्त्वा पयो पयसि पयसि त्वा पयसि पयो पयः दा त्वायसे पयसे त्वा त्वा पयसि पयसि त्वा त्वा पयसि पयसे वर्चोदावर्चोदां पयसे पयसि पयसे वचोदान् त्वा वर्चोदान्त्वा वर्चोदावर्चोदान्त्वा वर्षसि वर्चसि त्वा वर्चोदावर्चोदान्त्वा वर्चसि वर्चोदा मेदे दां त्वा वर्चसि वर्चसि विणोदां वर्चसि त्वा वर्चसिद्रविणोदां वर्चसि द्रविणो दान्द्र विणोदाव वर्चसि वर्चसि द्रविणो दान्त्वा द्रविणो दाव् वर्चसि वर्चसि द्रविणो दान्त्वा द्रविणो दान्त्वा द्रविणो दान्द्र वीणो दान्त्वा द्रविणे द्रविणे त्वा द्रविणो दान्द्र वीणो दान्त्वा द्रविणे त्वा द्रविणे द्रविणे त्वा त्वा द्रविणे द्रविणे त्वा त्वा द्रविणे द्रविणे साधयामि तेन तेन साधयामि द्रविणे द्रविणे साधयामि तेन साधयामि ते ने न साधयामि साधयामि ते नृणरि शिणातेन साधयामि साधयामि ते नृणा ते निणीणा ते ने नीणातेन ते ऋषिणा तेन तेन ऋषिणिणा ब्रह्मणा तया तया ब्रह्मणा ब्रह्मणा तया देवतया देवतया तया ब्रह्मणा ब्रह्मणा तया देवतया तया देवतया देवतया तया तया देवतया गिरस्वदं गिरस्वदेवतया तया तया देवतया गिरस्वद देवदयाङ्गिरस्वदङ्गिरस्वदेवतया देवद याङ्गिरस्वध्रुव ध्रुवाङ्गिरस्वदेवतया देवतयाङ्गिरस्वध्रुव अङ्गिरस्वध्रुव ध्रुवाङ्गिरस्वदङ्गिरस्व ध्रुवासीदसि दध्रुवाङ्गिरस्वदङ्गिरस्वत् ध्रुवासीद ध्रुवासीदसि दध्रुव ध्रुवासीद सीदे सीद